स कामो भव दुर्बुद्धे धार्तराष्ट्राल्पदर्शन नूनम् देवाः प्रसन्नास्तेनानुज्ञाम् मे युधिष्ठिरः प्रयच्छति वधे तुभ्यं तेन जीवसि दुर्मते नन्वद्यत्वाम् सहामात्यं सकर्णानुजसौ बलम् गत्वा क्रोधसमाविष्टः प्रेषयिष्येयमक्षयम् किम् नु शक्यम् मया कर्तुम् यत्तेन क्रुध्यते नृपः धर्मात्मा पाण्डव श्रेष्ठः पापाचारयुधिष्ठिरः एवमुक्त्वा महाबाहुः क्रोधसन्दीप्तमानसः परम् करेण निष्पिष्य निःश्वसन् दीनमानसः पुनर्दीनमना भूत्वा शान्तर्चिरिवपावकः भ्रातृन्महीतले सुप्तानवैक्षतवृकोदरः विश्वस्तानीव संविष्टान् नाति नातिदूरेण नगरं वनादस्माद्धिलक्षये जागर्तव्ये स्वपङ्क्तीमे हन्त जागर्म्यहं स्वयं, पास्यन्ती मे जलम् पश्चात् प्रतिबुद्धाजितक्लमाः इति भीमोऽव्यवस्यैव जजागारस्वयं तदा इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि भीमजलाहरणे पञ्चाशदधिकशततमोऽध्यायः